श्रीमद्भागवतमहापुराणं पञ्चमस्कन्ध अथ दशमोऽध्यायः जड् भरत और राजा रघुगणकी भेट् शीशोकुवाच अथ सिन्धुसौवीरपते रघुगणस्य व्रजत इक्षो मत्यास्तटे तत्कुलपतिना शिबिकावाह पुरुषान्वेषणसमये दैवेनोपसादित स द्विजवर उपलब्ध एवपि वा सङ्घनाङ्गो गोखरं बदधुरं वोढूं मलमिते पर्वाविष्टि गृहीतैः स गृहीतप्रसवम् अत अतरः उवास शिविकां स महानुभावः जला हि द्विजवरस्येषु मात्रा बलूकानुगतेन समाहिता पुरसगतिस्तदा विषमगतां स्वसिमिकां रघुगण उपधार्य पुरुषानधि वहतम् आहे वोढारह। साध्वतिक्रमथ क्रमत विषमं मुह्यते ज्ञानमिति अथत ईश्वरवचः सोपालम्भमुपाकर्ण्योपायतुर्याच्छङ्कृतं मनसप्स्तं विज्ञापयामबभूवो न वयं नरदेव प्रमद्दा भवन्नियमानुपथा साध्वे महावह तमधुनैव नियुक्तोऽपि न धृतं व्रजति नालेन स इति सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां धवितुमर्हतीति निश्चित्य निशम्य कृपणवचो राजा रघूगर उपासीतवृद्धोऽपि निसर्गेण बलात्कृत इषुदुद्धितमन्योरविस्पष्टब्रह्म तेजसं जातवेदसमिव रजसा वृतमतिराः अहो कष्टं धातर्व्यक्तमुरुं परिश्रान्तो दुर्घमध्वानबेक एव उवानशुचिरं नातिपीवानसङ्घणनाङ्गो जरसा चो जरसाचो भवान् भवान नो एवापर एते सङ्घट्टिन्न इति ब्रहु बहुविप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकरमाशयस्वं चरणम् चरम् अकं ले वरे वस्तो निसंस्थानविशेषेऽहं ममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तृष्टिं शिबिकां पर्ववधूवाह अथपुन स्वशिबिकायां विस्मगतायां प्रकृपित उवाच रहुगण किमिन्दमरे त्वं जीवन्मृतो मां कदर्शीकृत्य भर्तिसासनम् अचित् अतिचरसि प्रबद्धस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनतायां यथा प्रकृतिं सां भजिष्यस इति एवं बहुवबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमशानविद्धेन ददेन तिरस्कृताशे स भगवद्प्रियनिकेतं पण्डितमालिनं ब्राह्मणो ब्रह्मभूत सर्वभूतः सुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नं मतिं मेवान इव निगतस्मय इदा ब्राह्मण उवाच तयोदितं वक्तुं न विप्रलब्धं भर्तु समे स्याद्यदि प्रवादः स्थौल्यं कार्शं व्याधयम् आधेयश्च क्षत्रिं भयं कलिरिच्छां जरा च निर्धारतिरुमन्युरहम्मदं सुचोद्देहेन जातस्य हिमेन सन्ति जीवन्मृतत्वं नियमेन राजन् आद्यन्तवद्यन्तृकृतस्य दृष्टं स्वस्वं स्वाभ्यभावो ध्रुव युज्य यत्र तरि शुध्यते योगः विशेषबुद्धेर्विब्रह्मणाक च पश्याम यन्न व्यवहारतोऽन्यत क किमीशितव्यं तथापि राजन् करवामि किं ते उन्मत्तमत्तजडवन् स्वसंसां गतस्य मे वीरचिकित्सितेन अर्थक्रियान् शिक्षितेन शब्दप्रमत्तस्य च विष्टपेशः श्रीशोवाच एतावदनुपादपरिभाषया प्रधुर्दीर्य मुनिवर उपशमशील उपरताण्डात्म्य निवेद्य उपभोगेन कर्मारब्धं व्यपनयनं राजेन ध्यानमपि तथोवाह स चापि पाण्डवेयसिन्धुसौवीरपतिसद्वजिज्ञासायां सम्यक् श्रद्धयाधिकृताधिकार तदधृदयं गन्तिमोचनं आश्रित्य बहुयोग्रन्थसम्मतं तर्यावरुह्य शिरसा पादमूलमुपश्रितः क्षमापयन् विगत निपदेवस्मयं उवाच कस्त्वं निगूढश्च रसे द्विजानां विवर्षि सूत्रं गतमोऽवधूतः कस्यासि कुत्रत्य इहापि कस्मा क्षेमायनश्चेदसि नोत शुक्लः